तव विमतम् अपास्तं मह्नेत्रं निटाले सपदि दहति चेन्मा मन्मथ त्वच्छराग्निः अपकृतनिजरेके वंशरत्नापराधिन् अहहहिममयूको दुःसहं किं न कुर्यात् पुरासारङ्गाक्ष्याम् विविधरसभावैः उपजितो वियोगीर्ष्या प्रो दाते सपति मदनो मां व्यथयतु कठोरश्रीरन्तगं दगनं तु हिनासारतरलादजायाम् अस्यां मे बत मुकुटभूषापि विमता वाणिस्ते मधुसंस्कृतैः अविरहिवद्यः कथं स्यस्यादता स्वान्तं प्राप्य मनः गणाचलञ्चरयन् गत्स्ये दशाम् श्रीचेतो भवभावया त्रिजगतां सम्मोहकं त्वां विना देहार्गप्रतिपन्नमूर्तिमपि तां को वा वियोक्तापया दृश्यं सर्वमपि प्रियं श्राव्यं वजस्तावगम् स्पृश्य त्वत्कुजगुम्पयुग्मपि च घ्रातव्यम् अस्य तव अस्वाद्यं च तवारस्मृतमपि ध्येयं त्वदालिङ्गनं सर्वं त्वन्मयमे को नु विरहग का वा नियोगव्यथा दनबुत्फलमिक्षणं च चूतप्रवालमधरं प्रबालमधरं लिकुचाविरोजौ चाम्पेयदा मम वपुः आधरतीवनश्रीः एषा तनोति अलिकुलैः आरब्धजारुस्वने सोत्कण्ठैः कलकण्ठरणैः शीतैश्च वादङ्कुरै नीतो हन्तवनादिम् न्तरमसौ दृष्ट्वा च तत्रोत्तरं हास्यं नवरत्नसौदो अगमते बालेन्दुचूडामणिः